हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे अष्टाधिकशतमः सर्गः श्रीरामेण रावणस्य वद अथ संस्मारयामास मातली राघवं तदा अजानन् एव किम्बीर त्वम् एनम् अनुवर्तते विसृजास्मै वधाय अस्त्रम् पैतामहम् प्रभो विनाशकाल कथितो यत्सुरे सोऽ वर्तते ततः संस्मारितो राम तेन वाक्येन मातलेः जग्राह सशरम् दीप्तम् यं तस्मै प्रथमम् प्रादात् अगत्यो भगवान् ऋषिः ब्रह्मदत्तम् मद्बाणम् अमोघम युधिवी ब्रह्मण निर्मित पूर्व इंद्रार्थमित सत्तम सुरपते पूर्व श्रीलोक जय वाजे फले का फले पावक शरीर आकाशमय गौरव मेरुमंदरौ जज्वल्यनम वपुषा सुपुङ्खम् हेमभूषितम् तेजसा सर्वभूतानां कृतम् भास्करवर्चसं स धूमम् इव कालाग्नि दीप्तमाशिविशोपमम् नरनागाश्वरम् वेदनं क्षिप्रकारिणम् द्वाराणाम् परिघाणां च गिरीणां चापि भेदनम् नानारुधिरदिग्धाङ्गम् मेदो मेदोदिग्धम् सुदारुणम् वज्रसारम् महानादम् नानासमिति दारुणम् सर्वविश्रासनम् भीमम् श्वसन्तमिव पन्नगम् कङ्कगृध्र बकानाञ्च उमायुगुण रक्षसाम् नित्य भक्षपदम् युद्धे यमरूपम् भयावहम् नंदनं वानरेन्द्राणाम् रक्षसाम्भवसाधनम् वाजितं विविधै वाजे चारु चित्रै गरुत्मरः तमुत्तमेषु लोकानाम् इक्ष्वाकूभयनाशनम् द्विशतां कीर्तिहरणम् प्रह च करमात्मनः अभिमन्त्र्यः ततो रामः तम्भयेषु महबलः सन्दधे कार्मुके बले तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे सर्वभूतानि सन्त्रेषु चचालय च वसुन्दराय सरावणाय संवृद्धो वृषम्मायम्य कार्मुकम् चिक्षेप परमायत्त शरं भरम विदारणं स वज्रैव दुर्धशो वज्रे बाहु विसर्जितः उतान्तचार्य चा वार्यो न्यपथ रावणो रसि सविसृष्टो महावेग शरीरान्त करपरः बिभ्रेद हृदयं तस्य रावणस्य दुरात्मनः हृदि राक्तः सुवेगेन शरीरान्त करशर रावणस्य हरन् प्राणान् विवेश धरणीतरम् स शरो रावणं हत्वा रुधिरार्द्रे कृतश्चविः कृतकर्मा निभृतवत् स तोणीम् पुनराविशत् तस्य हस्ता सतस्यासु कार्मुकम् तत्सहायकम् निपपात स प्राणी तस्य मानस्य जीवितात् गता न ऋतेन्द्रो मद्वितीः पपातस्यन्दन भूमौ रुत्रो वज्र यथा तम् दृष्ट्वा पतितम् भूमौ हतशेषा निशाचरः हतनाथा भयत्र सा सर्वतः सम्प्रदुद्धु नर्दन्तश्चाभिपेतुस्तान् वानल द्रुमयोधिरः दशग्रीव वदम् दृष्ट्वा वानराजितकाशिनः अर्दिता वानरैर्विष्टै लङ्कामभ्यपतन् भयात् हताश्रयत्वात् कारुणैः वाष्पश्रवणैर्मुखै ततो विनेष्टु संवृष्टा वानराजितकाशिनः वदन्तु राघवजयम् रावणस्य च वद्वधम् अथान्तरिक्षे वदन सौम्य श्री दश दुन्दुभि दिव्य गन्धवस्तत्र मारुतान्तरिक्षा च पुष्पवृष्टिः तदा भुवि किरन्ती राघवरथम् दुरावापा वापा मनोहरा राघव तव संयुक्ता गगने च विषुश्रवे साधु देवतानाम् महात्मनाम् आविवेश महान् देवानाम देवानां चारणौ सह रावणे न्यते रौद्रे सर्वल्लोकः भयङ्करे ततस्तकामम् सुग्रीवम् अङ्गदं च विभीषणम् चकरे राघवो प्रीतो हत्वा राक्षसपुङ्गवम् ततः प्रज प्रजमम् मरुद्गण देशप्रसेदो विमलं नभो भवेत् महिषकम्पेन च मारुतो विरप्रभश्चाप्यभवेत् दिवाकर सग्रीव विभीषणाङ्गदा सुरद्विशिष्टा स लक्ष्मणसदा समेत्य रुष्टा विजयेन राघवम् रणिभिरामम् विधिनाभ्यपूजयन् स तु नेता सज्जनबला विवृतोरणे बभूव ऋघुकुलन्द्रपनन्दनो महोज त्रिदश गणैः अपि संवृतो महेन्द्र इत्याचि श्रीमद् रामायणे वाल्मीकि अधिकारि युद्धकाण्डे अष्टाधिकशतसमत्सर्गः श्रीसीतारामचन्द्रार्पणमस्तु श्री